मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 32 टु वक्रतुण्डप्रादुर्भावः श्रीगणेशाय नमः मुद्गल उवाच शृणुदक्षमःप्राज्ञचेष्टितं परमं महद यत्कृतं सर्वदेवैस्तत्कथयामि समासदः गदे मुनौ महाभागे शिवो हर्षसमन्वितः गणेशं हृदि सञ्चिन्त्यब्रह्मादींश्च वचो ब्रवीद शृणुविष्णो विधे देवाशृणुध्वं सर्वतापसाः ऋषय्यः संस्थिता अत्र वचनम् हितकारकम् आत्रेयेण च दत्तेनम् कथितम् दुःखनाशनम् अथ एकाक्षरेणैव प्रसादयत विघ्नपम् शम्भोर्वचनमाकये मुनये देवनायकाः साधु साध्वब्रुवन् सर्वे प्रसन्नाश्च तथा भवन् तद एकाक्षरेणैव मन्त्रेण गणपं मुने देवाश्च मुनयः सर्वे सेवयामासुरादराद महोग्रतपसायुक्तास्थितास्तत्र शिवादयः आराधयं स्तु देवेशं गणेशं सर्वनायकं पद्मासनगदा केजिद्वीरासन गदाः परे स्वस्तिकास्सन आसीना एवं नानासने स्थिताः निराहारतया केजिष्ठिदास्तत्र प्रजापते पत्र वायुभुज प्राणायाम पायणा जलभक्षा स्वद्रस्था केजि सना केजिमानस पूजा पूजया मसुरचस केचित् पुष्पोपहाराद्यैर्यत्नदः समपूजयन् प्रदक्षिणा परा केजिदेवं नानाविधानदः तपन्तोगणपं चैव मन्त्रेण विधिपूर्वकं येकचित्तेन सर्वेते ते तोषयामासुरञ्जसा ये वं वर्षसहस्रेण दिव्येन तपसा स्वयम् प्रसन्नो भून्महातेजा वक्रतुण्डः प्रतापवान् देवानां च ऋषीणां च ययौ चाग्रे गणाधिपं तेजसा पुञ्ज एवासौ साक्षाद्ब्रह्ममयो बभौ सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः चतुर्बाहुश्च पाशेनाङ्गुशेन ना वरदेन च अभयेन समायुक्तो वामाङ्गे सिद्धिधारकः दक्षिणाङ्गे च बुद्धिं वै दधानो भगवान्परः नाभिशेषो मुकुटवान् कुण्डलीकटकान्वितः चिन्तामणि लसद्वक्षाव्यालयज्ञोपवीतवान् नानाभूषण शोभाढ्यस्तेजसाज्वलदद्भुदः पुष्करं पुष्करे धृत्वा भ्रामयन् समुपाययौ तं दृष्ट्वा देवविप्रास्ते भयभीतास्समधः उदितं किमिदं ते जःप्रलयानलसन्निभम् अथवा गणराजोऽयं किं वा स्वामी समागतः अधवा प्रलयो भावी अकाले दैवनिर्मितः इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् उवाच वक्रतुण्डस्तान् मेखगम्भीरनिस्वनः वक्रतुण्ड उवाच भोभो भो, भो मुनिगणादेवास एवाहं समागतः यं ध्यायध महाभागास्तम् जानीत गणेश्वरं तपसा मन्त्रराजेन ममध्यानेन सर्वशः परितुष्ठो वरं दातुमागतोऽहं न संशयः मुद्गल उवाच वक्रतुण्डवच श्रुत्वा हर्षिता अमरर्षयः प्रनेमु प्रार्थया मासु सौम्यभावं प्रविह्वलाः तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः यथा तं मुनयो देव अपश्यन् स्वेन चक्षुषा सौम्यभावेन संयुक्तं वक्रतुण्डं सुरेश्वराः मुनयस्तं प्रणम्योचोर्धन्या धन्या वयं प्रभो अपूजयन्प्रयत्नेन भावेन स्नेहतस्तथा उपचारैषट् दशभिर्यथाविधि महेश्वराः यथा विधिप्रणम्यैव तुष्टुभुकृदमङ्गलाः बद्धाञ्जलिपुडाः सर्वे भक्तिनम्रात्मकन्धराः साश्रुनेत्राः सरोमाञ्जास्तदर्शनमहोत्सवाः यथा ज्ञानं यथा न्यायं वक्रतुण्डम् देवर्षय ऊचुः नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः एकदन्ताय देवाय सर्वाधिपतये नमः निर्गुणाय निरूपाय चतुर्बाहुधराय ते सिंहवाहाय नागानां पत्युर्नाभौ धराय च अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः पाशाङ्गुशधरायैव नागयज्ञोपवीतिने वरदाभयहस्ताय सिद्धिबुद्धिवराय च ब्रह्मभूताय भक्तानां ब्रह्मभूय करायते नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः सूर्यरूपाय धात्रे च नमः शक्तिमयाय च दैत्यदानवरूपाय देवरूपधराय च नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे पर्वताय नमस्तुभ्यं सरित्सागररूपिणे जलजन्तुस्वरूपाय सर्परूपायते ते नमः वेदाधिकाशीदिलक्षयोनिसंस्थायते नमः चराचरमयायैव नमो नानाप्रभेदिने कर्मा कर्मस्वरूपाय नमः खलु विकर्मणे ज्ञानयोगाय देवाय स्वात्मरूपधराय ते दे। स्वसंवेद्यस्वरूपाय सदा योगमयायते नानाधारप्रथाराय शब्दब्रह्ममयायते मायारूपाय मायायै मायाहीनायते नमः मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः स्थूलसूक्ष्मादिभेदाय भेदहीनायते नमः भेदाभेदमयायैवानन्दपारायते नमः भक्तेभ्यो वरदात्रे च भक्तसंरक्षकायते नमो नमः परेशायव्ययाय च नमो नमः गणेशाय नमस्तुभ्यं योगाधीशायते नमः यं स्तोदुम्न समर्थाश्च वेदासाङ्गाश्च योगिनः तं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणं माया दुःखं च सर्वेषां मनसि ज्ञानकारकं ब्रह्म तस्मात् तथा वक्रं ज्ञानहीनं बुधै स्मृतं माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत् परं योगशान्धिश्च सर्वेषां योगिनां हृदि संस्थिता मायादेहस्वरूपा ते ब्रह्मवक्रं स्मृतं मुखं उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते तं वक्रतुण्डं पश्यामः साक्षाद्योगमयं परं धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणतास्तवैः धन्यं जन्मत्वक्षिधन्यं धन्यात्सम्पद एव च ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः प्रसन्नो यदि देवेश यदि देयो वरशुभः तदा भक्तिरस्तु सदा प्रार्थयामो वरं च इदं यतस्त्वं चिन्तितार्थतः मत्सरा सुरनाश्यं च वक्रतुण्डकुरु प्रभो जगत् सर्वं वयं चैव पीडितास्तेन विघ्नप सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् तु त्वैवं प्रार्थयित्वादं प्रणतास्ते सुरर्षयः तानुधाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच वक्रतुण्ड उवाच भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परं भविष्यति महाभागा ईप्सितार्थप्रदं महत मत्सरासुरनाशं च करिष्यामि सुरर्षयः भवदाम्भक्तियोगेन प्रसन्नपूर्णतां गदः पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः अष्टावरणसंयुक्ता देवास्सर्वे सर्वेच मानवाः नागाश्चराचरं सर्वं तस्यतेभ्यो तेभ्यो भयं नहि अदो दैत्यस्य नाशश्च कठिनो महान् तथापि भवतां देवा करिष्यामि प्रियं द्विजाः ॐ तत्सदिः श्रीमदान्त्ये पुराणोपनिषदिश्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ओ